हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे अयोध्याकाण्डे चतुर्थः स्वर्गः श्रीमहादेव उवाच ततस्तुमित्रा दृष्टेन रामं राज्ञिं च सम्भ्रम कौसल्यां बोधयामास रामोऽयं समुपस्थितः श्रुत्वैव रामनाम बहदृष्टि प्रवाहिता रामं दृष्ट्वा विशालाक्षम् आलिङ्ग्याङ्के न्यवेशयत् मूर्ध् वघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि भुङ्क्ष्व पुत्रेति च प्राह मिष्टं मन्नम् क्षुधार्दितः रामप्राह न मे मातः मम कालोऽद्य निश्चितः कैकेयी वरदानेन सत्यसन्धः पितामर भरताय दधो राजम् ममाप्यरण्यमुत्तरं समास्तत्र स्मस्तत्र मुनिवेश मुनिवेशद्रु आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि तच्छ्रुत्वा स सुद्विघ्ना मूर्च्छिता पुनरुत्थितः आहरामं सुदुःखातः दुःखसागरसम्प्लुता यदि रामः वनं सत्यं यासि चेन्नय मामपि तद्विहीनाक्षार्थं वा जीवितं धारये कथं यथा गौरबालकं वत्सं त्यक्त्वा तीर्थ न कुत्रचित् न शक्नोमि त्यक्तुं प्राणाप्रियं सुतं भरताय प्रसन्नश्चेत् राज्यं राजा प्रयच्छतु किमर्थं वनवासाय त्वां वाज्ञापैतिप्रियं कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु त्वया किम् अपराधं हि वा पिता गोरु यथा तवाहम् अधिका ततः पित्रा ज्ञप्तो वनं गन्तुं वारयेयमहं सुतं यदि गच्छसि मद्वाक्यम् उल्लिघ्य तदा प्राणान् परित्यज्य गच्छामि यमसाधनं लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं मृष उवाच राघवं वीक्ष्य जगत्रयं उन्मत्तं भ्रान्तमनसं केके वशवर्तिनं बद्ध्वा नियन्मि भरतम् तद्बन्ध बंद बन्धून् मातुलान् अपि अद्य पश्यन्तु मे शौर्यं लोकान् प्रदहतपुराय राम तमभिषेकाय कुरु यत्नं मरिन्दवय धनुष्पाणि तत्र निहन्यां रिघ्नकारिणः इति ब्रुवन्तं सौमित्रिम् आलिङ्ग्य रघुनन्दन श्रषि रघुशार्दूल ममात्यन्त हितेरतः जानामि सर्वं ते सत्यं किन्तु तत्समयो नहि यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् यदि सत्यं भवेत् तत्र आयस सफलश्च भोगावेघवितानस्थ विद्युल्लेखेव चञ्चल आयुरप्यग्निसन्तप्त लोहस्थ जलबिन्दुवत् यथा व्यालगलस्थोऽपि भिकोदंशान्नप्रेक्षते तथा कालाहि नाग्रस्तु लोको भोगान् शाश्वतान् करोति दुःखेन हि कर्म शरीर भोगास्तु महर्निशं नर देहस्तु भिन्न पुरुषास्थमीक्षते को वात्र भोग पुरुषेण भुज्यते सुत पितृमातृ सुतभ्रातृ दारबन्ध्वादिगमहे प्रणयामिव जन्तोरां नद्यां काष्ठो गवच्चरः चायेव लक्ष्मी चपला प्रतीता तारुण्यमं भूर्मि वद ध्रुवं च स्वप्नोपयं स्त्री सुखमायुरल्पं तथापि जन्तोरभिमान एष संस्कृतिः स्वप्नसदृशी संकुला, गन्धर्व नगरप्रक्ष मूढस्तामनुवर्तते आयुष्यं क्षीयते यस्मात् आदित्यस्य गतागते दुर्कानेषां जरा कथञ्चिन्नैव बुध्यते स एव दिवस सैव मूढधी भोगान् कालवेगं न पश्यति प्रतीक्षणं क्षरत्येतत् आयुरामघटाम्बुवत् सपत्ना शरीरं प्रहरन्त्य हो जरा व्याघ्रीव पुरत तर्जयन्त्येव तिष्ठते मृत्युसहैव समयं सम्प्रतीक्षते देहेऽहं भावमापन्नो राजाहं लोक विश्रुतः इत्यस्मिन् मन त्यजन्तु कृमिवी भस्म सन्निति तस्थि मास वित्र रेतो रक्तादिसंयुतः विकारी परिणामे च देहे आत्मा कथंवद यमास्थाय भवान् लोकं दग्धुम् इच्छति दे लक्ष्मण देहाभिमानिनः सर्वे दोषा प्रादुर्भविन् भवन्ति देहोऽहम्मिति या बुद्धिः अविद्या सा प्रकीर्तिता नाहश्चिदे चिदात्मेति बुद्धि विद्येति भण्य अविद्याः संस्कृते हेतु विद्या तस्या निवर्तिकः तस्मात् यत्नः सदा कार्यो विद्याभ्यासे मम मोक्षुभिः तत्र शत्रव शत्रुसूदन तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वथा येनाविष्ट पितृ भ्रातृ सुरुत्सखिन् क्रोधमूल मनस्ताप क्रोध संसार बन्धनं धर्मक्षयकर क्रोध तस्मात् क्रोधं परित्यज क्रोध एष महान् शत्रु कृष्णा वैतरणी नदी सन्तोषो नन्दवनम् शान्तिरेव हि शत्रुरेव भवेन्न ते देहेन्द्रियमनप्राण बुद्ध्यादिभ्यो विलक्षणः आत्माशुद्धः स्वयं ज्योति अविकारी निराकृतिः यावद्देहेन्द्रियप्राणैः भिन्नत्वं नात्मनो विदुः तावत् संसारदुःखो वै पीड्यन्ते मृत्युसंयुताः तस्मात्त्वं सर्वदा भिन्न आत्मानं हृदि भावय बुद्ध्यादिभ्यो अनुवर्तय स्वमाखिलः भुञ्जन् प्रारब्धम् अखिलम् सुखं वा दुःखमेव वा प्रवाह पतितं कार्यं न लिप्यसे बाह्ये सर्वत्र कर्तृत्वम् आवहन्नपि राघव अन्तः शुद्ध स्वभावस्थं लिप्यसे न च कर्मभिः एतन्मयोदितं कृष्णम् हृदि भावय सर्वदा संसारदुःखै अखिलै बाध्यसे न कदाचन त्वमप्यम्ब मया दृष्टम् हृदि भावय नित्यदा सभागमं प्रतीक्षस्व न दुःखै पीड्यसे चिरम् न सदेकत्र संवास कर्ममार्गानुवर्तिनां यथा प्रवाहपतितः प्रवानां चरितां तथा चतुर्दश समासंख्या क्षणार्धम् इव जायते अनमन्य स्वलम्मामम्ब दुःखं सन्त्यज्य दूरतः एवं चेत् सुखसंवादो भविष्यति वने मम इत्युक्त्वा पादयो मातुः पादयोपदचिरम् उत्थाप्यके समावेश्य आशीर्भिरभ्यनन्दयत् सर्वे देवा सगन्धर्वा ब्रह्मविष्णु शिवादय रक्षन्तु त्वां सुधायान्तं तिष्ठन्तं निद्रयायुतम् इति प्रस्थापयामास समालिङ्ग्य पुन लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः अह राम ममान्तस्था संशयोऽयं त्वया हृत यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश अनुगृह्णीष्व मां राम लक्ष्मणं याहिमाचिरम् ं समाधातुं गतस्थीता पतिर्विभु आगतं पतिमरालोक्य सीता सुस्मितभाषिणी स्वर्णपात्रस्थ सलिलैः पादो प्रक्षाल्य भक्तितः पप्रच्छ पतिमरालोक्य देव किं ते वै सेनया विना आगतोऽसि से गतः कुत्र श्वेतच्छत्रं च ते वाद्यन्ते क्रीटादि विवर्जितः समन्तराजः सहितः सम्भ्रमान् नागतोसि किम् इति स्मरीतया पृष्टो पुष्टो सस्मितम् अब्रवीत् राज्ञा मेदण्डकारण्ये राजं दत्तं शुभेखिलम् अतश्चै पालयन्नाथाय शीघ्रं यास्यामि भामिनि अद्यैव यस्यामिवनं त्वं तु श्वश्रु समीपः शुश्रूषां कुरु मे मातु न मिथ्या वयम् इति भवन्तं श्रीरामं सीता भीता ब्रविद्वचः किमर्थं वनराज्यं ते पिता दत् पित्रा दत्तं महात्मना तमः रामकैकेयै राजा प्रीतो वरं भरता ये वनवासं ममानगे चतुर्दश समास्तत्र वासो मे किल याचितः तया देव्या दधो राजा सत्यवादी दया परः अथ शीघ्रं गमिष्यामि मां विघ्नं कुरु भामिनी श्रुत्वा तद् रामवचनं जानकी प्रीतिसंयुताय अहम् अग्रे गमिष्यामि वनं पश्चात् त्वमेष्यसि इत्याह मां विनागन्तुं तव राघवनोचितं तामह राघवप्रीत स्वप्रियां प्रियवादिनीं कथं वनं तां बहुव्याघ्र मृगाकुलं राक्षसाः घोररूपाश्च सन्ति मानुष भोजिनः सञ्चरन्ति समन्ततः कटलमूलानि भोजनार्थं सुमध्यमे अपुपानपि व्यञ्जनानि विद्यन्ते न कदाचने, काले काले फलं वापि विद्यते कुत्र सुन्दरी मार्गो न दृश्यते क्वापि शर्कराय कण्टकान्वितः ग्वागौ वरसंवादम् जिल्लिदंशादिभिर्युतम् एवं बहुविधं दोषम् वनं दण्डकसन्दितं पादचारेण गन्तव्यम् शीतवातातपादि महत् राक्षसादीन् वने दृष्ट्वा जीवितं हास्यसे चिरात् तस्मात् भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्य शि मा वचनं श्रुत्वा सीता दुःखः समन्विता प्रत्युवाच किञ्चित् कोपसमन्वितः कथं मां धर्मपत्नीं पतिव्रतां तदनन्यां दोषां मां धर्मज्ञो सिरय अपरः राम को वा मां धर्षे ध्वने फलमूला तव भुक्त्वावशेषितम् तदेव मृततुल्यं मे तेन तुष्टा रमाम्यहम् त्वया सह चरन्त्यामे कुशाकाशाश्च कण्टकाः पुष्पास्तरणतुल्यामे भविष्यन्ति न संशय अहं त्वां क्लेशये नैव भवेयम् कार्य बाल्ये मां वीक्षकिद्वै ज्योतिषशास्त्र विशारदः प्राहते विपणे वास पत्या भविष्यति सत्यवादी द्विजो भूयात् गमिष्यामि त्वया सह अन्यत् किञ्चित् प्रवक्ष्यामि श्रुत्वा मां नयकाननं रामायणानि बहुश श्रुतानि बहुभिर्जि द्विजयी सीतां विना वदं रामो गतः किं कुत्रचिद्वद् अध्यागमिष्यामि सर्वथा त्वत्सहायिनी यदि गच्छसि मां त्यक्त्वा प्राणान् त्यक्ष्यामि च घृतः इति तं निश्चयं ध्याप सीताया रघुनन्दनः अब्रवीत् देवि गच्छत् वनं शीघ्रं मया अरुन्धत्यै प्रयच्छासु हारानाभरणानि च ब्राह्मणेभ्यो धनं सर्वं दत्वा गच्छामहे वनम् इत्युक्त्वा क्षण लक्ष्मणे नाशु द्विनाहूय भक्तितः ददौ गवां वृन्द वृन्दशतं धनानि वस्त्राणि दिव्यानि विभूषणानि कुटुम्बवद्भ्य श्रुतशीलवद्भ्यो मुदाद्विजेभ्यो रघुं शकेतु अरुन्धत्यै ददो सीता मुख्यन्या भरणानि च रामो मातुः सेवकेभ्यो तदो धनम् अनेकधाय स्वकान्ते पुरवासिभ्यः सेवकेभ्य तथैव च पौरजनपदेभ्य च ब्रह्मणेभ्यः सहस्र तु कौसल्यायै समर्पयत् धनुष्पाणि समागत्य रामस्याग्रहे व्यवस्थितः रामः सीता लक्ष्मण च जग्मु सर्वे नृपालयन् श्रीरामः सह सीतया नृपनथे गच्छन् च नै सानुज पौरान् जानपदान् कुतूहल दृशे श्यामय कामसहस्र सुन्दर वपु काञ्चादिशो भासयन् पादन्यास पवित्र किल जगत् पापालयन् तत्पितुः इति श्रीमदध्यात्मरामायणे मामेश्वरदी अयोध्याखण्डे चतुर्थः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु